मध्य वासिष्ठ ब्रह्माण मध्यभाग्या तटी भागवचरिता वासी उवाच्तल राज जमदग्निवधा उद्विघ्नचेता सुभृशितायास नईक अहो मे सुनृस्य लोकोरुभरि ब्रह्मस्वहरणे वाञ्छा तद्धत्या चादिगर्हिता अहो नाश्रौषमस्याहं ब्राह्मणस्य विजानदः वचनं तर्हि तां विमूढात्मा गदत्रपः इति सञ्चिदयन्नं व हृदयेन विदूयदा स्वपुरं प्रतिचक्राम सबलः सानुगस्ततः पुरीं प्रति गदे राज्ञि तस्मिन् सपरिवारके आश्रमात् सहसा राजन्विनिश्चक्राम रेणुका अध सक्षत सर्वाङ्गं रुधिरेण परिप्लुदं निश्चेष्टं परिदं भूमौ ददर्श पदिमात्मनः ततः सा विहदम् मत्वा भर्तारं गतचेतनम् अन्वाहदेवा शनिना मूर्च्छितान्यपदद्भुवि चिरादिव पुनर्भूमेरुद्धायादीव दुःखिता पदित्वोद्धाय सा भूयः सुस्वरं विललापजसाध्यर्थं धरणी धूलिधूसर अश्रु पूर्ममुखी दीना पदिदाशोकसागरे हानादप्रियधर्मज्ञाक्षिण्यामृतसागर हा दिगत्यन्तशान्तत्वं नैव काङ्क्षेद चेदृश्यम् आश्रमादभिनिष्क्रान्तसहसा व्यसनार्णवे क्षिप्त्वानाधामगाधे मां क्व च यादोऽसिमानद सदां साप्तपदे मैत्रे मुषिता कं त्वया सह यासि यत्र त्वमेकाकी तत्र मां दृष्ट्वा त्वामीदृश्यावस्तमचिराधृतयं मम नदीर्यदे महाभाग खलु योषितः इत्येवं विलपन्ती सा रुदती च मुहुर्मुहुः चुक्रोश रामरामेदि भृशं दुःखपरिप्लुता तावद्रामोऽपि स वनात् समिद्भारसमन्वितः अकृदव्रणसंयोक्तस्वाश्रमायण्यवर्तत अपश्यद्भयशंसीनिमित्तानि बहूनि सह पश्यन्युद्विग्नहृदयस्तूर्णं प्रापाश्रमं विभुः मायान्तमभिप्रेक्ष्य रुदीशा भृशातुरा न विभूतेव शोकेन प्रारुद्रेणुका पुनः रामस्य पुरदो समताडयद मार्गे विदित वृत्तान्तः मातरम् कुररीमिव शोकार्ता दृष्ट्वा दुःखमुपेयिवान् धैर्यमारोप्य मेधावी दुःखशोकपरिप्लुतः नेत्राभ्यामश्रुपूर्णाभ्यां तस्थौ भूमा वर्धो मुखः तं तथागदमालोक्य रामं प्राह कृतव्रणः किमिदं भृगुशार्दूलनैद त्वय्युपपाद्यते न त्वादृशमहाभागभृशं शोचन्ति कुत्रचिद् हृदिमन्दो महान्तस्तु दुःखं कुर्वति न व्यये शोकसर्वेन्द्रियाणां हि परिशोषप्रदायकः त्यजशोकं महाभागो न तत्पात्रं भवद्यशाखा ये हिकामुष्मिकार्थानां नूनमेकान्तरोद्धकः शोकस्तस्यावकाशं त्वं कथं धृदि नियच्छसि तत्त्वं धैर्यधनो भूत्वा परि चेतनाम नैवागमनमस्तिह व्यधिक्रान्तस्य वस्तुनः तस्मादतीदमखिलं त्यक्त्वा कृत्यं विचिन्तय इत्येवं सान्त्वमानश्च तेन दुःखसमन्वितः रामः संस्तम्भयामास शनैरात्मानमात्मना दुःख शोक परिदाहि रेणुका त्वरुदन्मुखः त्रिसप्तकृत्वो मुदरं समताडयद तावत्तदन्तिकं रामः समभ्येत्याश्रुलोचनः रुदधि मलमम्बेदि सां त्वयामास मातरम् उवाच पनयन्दुःखाद्भर्तृशोकपरायणां त्रिसप्तकृत्वो यदिदं त्वया वक्षः समाहदम् तावत्सङ्ख्यमहं तस्मात्क्षत्रजारमशेषतः हनिष्ये भुवि सर्वत्र सत्यमे दत् ब्रवीमिदे तस्मात्त्वं शोकमुत्सृज्य धैर्यमातिष्ट साम्प्रतं नास्त्येव नूनमायादमधिक्रान्तस्य वस्तुनः इत्युक्तारेणुकातेन भृशं दुःखान्वितापि सा कृ्राद्धैर्यं समालम्ब्य तथेधिप्रत्यभाषत ततो रामो महाबाहुपिदुःसह सहोदरैः अग्नौ सत्कर्तुमारेभे देहं राजन्यथाविधि भर्तृशोकपरीताङ्गी रेणुकापि दृढव्रता पुत्रान् सर्वान् समाहूय त्विदं वचनमब्रवीद रेणुकोवाच अहं वपितरं पुत्रा स्वर्गदं पुण्यशीलिनम् अनुगन्तुमिहेच्छामि तन्मेनु ज्ञातुमर्हथ असह्यदुःखं वैधव्यं सहमानात् कथं पुनः भर्त्रा विरहिता तेन प्रवर्तिष्ये विनिन्दिता तस्मादनुगमिष्यामि भर्तारं दयितं मम यथा तेन प्रवर्तिष्ये परत्रापि सहानिशं ज्वलन्दमिममेवाग्निं सम्प्रविश्य चिरादिव भर्तोर्मम भविष्यामि पितृलोकप्रियातिथिः अनुवादमृदे पुत्रा भवद्भिस्तत्र कर्मणि प्रतिभूयन वक्तव्यं यदि मत्प्रियमिच्छत वचनमेणुका दृढ़ निश्चय अग्नि प्रवेश भर्ता मनो दधे ये तस्वे तो रेणुका तनय सह सदिगंभीचा शरीरिणी हे रेणुके स्वतनयैर्गिरं मे वृताशृणो मा कार्शीस्साहसम्भद्रे प्रवक्ष्यामि प्रियं तव साहसो नैव कर्तव्य केनाप्यात्महितैर्षिणा न मर्तव्यं त्वया सर्वो जीवन् भद्राणि पश्यति तस्माद्धैर्यधना भूत्वा भव कालकाङ्क्षिणी निमित्तमन्तरीकृत्य किञ्चिदेव शुचिस्मिते अचिरेणैव भर्तादे भविष्यति सचेतनः उत्पन्नजीवितेन त्वं कामं प्राप्स्यसि शोभने भवित्रीचिररात्राय बहुकल्याणभाजनं वसिष्ठ उवाच इति तद्वचनं श्रुत्वा धृतिमालम्ब्य रेणुका तद्वाक्यगौरवाद्धर्षमवापुस्तनयाश्च ते ततो नीत्वापि दुर्देहमाश्रमाभ्यन्तरं मुनेः शाययित्वा तेषां तत्रोपविष्टानामप्रहृष्टात्मचेदसां निमित्तानि शुभान्यः निमित्तानि महान्ति च तेन ते किञ्चिदाश्वस्तचेदसो मुनिपुङ्गवाह निषेदुत्सहिता मात्रा काङ्क्षन्तो जीवितं पितुः ये तस्मिन्नन्तरे राजन् भृगुवंशधरो मुनिः विधेर्बलेन मदिमांस्तत्रागच्छद्यदृच्छया अधर्वणां विधिस्साक्षाद्वेदवेदाङ्गपारगः सर्वशास्त्रार्थवित्प्राज्ञसकला सुरवन्दिदः मृदसञ्जीविनि विद्यां यो वेदमुनिदुर्लभां यथान् मृदान् देवैरुद्धपयदि दानवान् शास्त्रमोशनसं येन राज्ञां राज्यफलप्रदं प्रणीतमनुजीवन्ति सर्वेद्यापीह पार्थिवाहा स तदाश्रममासाद्य प्रविष्टोन्दर्मः मुनिः ददर्श तदवस्तांस्तान् सर्वान् दुःखपरिप्लुतान् अथ ते दुभृगुं दृष्ट्वा वंशम्यपितरं मुदा उद्धायास्मै सत्कृत्य परमासनं स तान् अभिनन्द्य महामुनिः पप्र च वृत्तं तत्सर्वं ते न्यवेदयन् तच्छ्रुत्वा स भृगुशीघ्रं जलमादाय मन्त्रविद सञ्जीविन्या विद्ययातं शिषेच्च प्रोच्चरन्निदं यज्ञस्य तपसो वीय ममापि शुभमस्ति चेद् वता जीवताच्छीक्रम प्रसुप्त इव चोद युक्त वा शुभे वाक्ये भृगुण साधुकिणा सुत्थस्तावतार्चीक साक्षा गुरुरीवापर दृष्ट त्र स्थम वंद्यम भृगुँ स्वयं पिताम नामम भक्त जमदग्निवाच धन्योहृत्योहम सफल जीवीद मे यद्ये चरण तेज सुरासुर नमस्कृत भगवन्की करोम्यद शुश्रूषा तव मनदुनीत्मकुम स्वयं चरणाबुकण यत्युक्त्वा सहसानीदं रामेणार्भ्यं मुदान्वितः प्रददौ पादयोस्तस्य भक्त्यानमितकन्धरः तज्जलं शिरःसाधत्तः सकुटुम्बो महामनाः अध सकृत्य स विनयान्वितः भगवन् किं कृतं तेन राज्ञा दुष्टेन पादकं यस्यातिथ्यं हि कृतवानहं सम्यग्विधानतः साधुबुद्ध्या दुष्टात्मा किं चकार महामते वसिष्ठ उवाच एवं स पृष्टो मदिमान् भृगुस्सर्वविधीश्वरः चिरं ज्ञात्वा समालोच्य करणं प्राह भूपते भृगुरुवाच शृणुतादमहाभागबीजमस्य हि कर्मणः यश्च वै पापं सर्वज्ञस्य तवानख सप्तः नाशार्थं स महीपतिः द्विजा पराधतो मूढवीर्यं ते विनशिष्यते तत्कथं वचनं तस्य भविष्यत्यन्यधा मुनेः अयं रामो महावीर्यं प्रसह्य नृपपुङ्गवं हनिष्यति महाबाघो प्रतिज्ञां कृतवान् पुरा यस्मादुरः प्रति कथं त्वया माधर्ममाग्रतः एकविंशतिवारं हि भृशं दुःखपरीतया त्रिसप्त कृत्वो निःक्षत्रां करिष्ये पृथिवीमिमाम् अदोयं वर्यमाणोऽ वित्वया पित्रा निरन्तरं भाविनोऽर्थस्य च बलात् करिष्यत्येव मानद सदु महाभागो वृद्धानां पर्युपासिता दत्तात्रे याद्धरे रंशा लब्धबोधो महामतिः साक्षाद् भक्तो महात्मा च तद्वधे पादकं भवेद् एवमुक्त्वा महाराज सभृगुर्ब्रह्मणसुतः यथा गतं ययविद्वान् भविष्यत्पालपर्ययाद यदि श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे भार्गवचरिते त्रिंशत्तमोऽध्यायः ओम्